श्रीहरये नमः अथ सप्तपञ्चाशद्धमोऽध्यायः श्रीशुक उवाच विज्ञाधार्थोऽपि गोविन्दो धक्तानाकर्ण्यपाण्डवान् कुन्तीञ्च कुल्यकरणे भीष्मं कृपं सविधुरं गान्तारीं तुल्यदुःखौ च संगम्य हाकष्टमिति होचतुः लब्ध्वैतत् अन्तरं राजन् सुदधन्वानमूचतुः अक्रूरकृतवर्माणो मणिः कस्मान्न गृह्यते योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य नः कृष्णायाधानसत्रा जेत् कस्माद्भ्रातरं मन्वियात् एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तमः सयानम् अवधिल्लोभात् तपः पक्षी न जीवितः स्त्रीणां विक्रोसमानानां ग्रन्थन्तीनामनाथवत् हत्वा पशुंसौनिकवत्मणिमाताय जग्मिवान् सत्यभामा च पितरं हतं वीक्ष सु चार्पितां व्यलभत्ता तथादेति हा जगामगजसाक्वयं कृष्णाय विदितार्थाय तप्तासौख्यौ पितुर्वधं तथा कर्ण्येश्वरौ राजन् अनुश्रुत्य अहो नः परमं कष्टं इत्यस्राक्षौ विलेपतुः आगत्य भगवांस्तस्मात् सभार्यसाग्रजः पुरं सतधन्वानमारेभे हन्तुं हर्तुम् अणिन्ततः सोऽपि कृष्णोद्यमं ज्ञात्वा भीतः प्राणपरीप्सयान् साहाय्ये कृतवर्माणम् अयाचतस चाब्रवीत् नागमीश्वरयोः कुर्यां हेलनं रामकृष्णयोः को कल्पेत तयोर्वृजिनमाचरन् कंसः यद्वेशात्याजितश्रिया यद्वेषात्याजितश्रिया जरासन्धः प्रत्याक्यातसचाक्रूरं संयुगान् सोप्याहकोऽभिरुध्येत विद्वान् ईश्वरयोर्बलं ययिदं लीलया विश्वं सृजत्यवतिहन्ति च चेष्टां विश्वश्रुजो यस्य न विधुर्मो हिता जया यः शैलमुत्पाटय केन पाणिना दतार लीलया भाल उच्चिलीन्द्रमिव अर्बका नमस्तस्मै भगवते कृष्णाय अद्भुतकर्मणे अनन्ताय आधिभूताय कूढस्थायात्मने नमः प्रत्याख्याथ स तेनापि सतधन्वा महामणिं तस्मिन् यस्याश्वम् आरुह्य सतयो जनगम्ययो गरुडध्वजमारुह्य रथं राभजनार्दन अन्वयातां महावेगैर् अस्वै राजन् मिथिलायाम् उपवने विसृज्यपतितं ह्यं पद्यामतावत् सन्त्रस्थ कृष्णोऽप्यन्भद्रभदृषा पदादेर्भगवांस्तस्य पदादिस्तिग्मनोमिना चक्रेण शिरमुत्कृत्य वाससोऽव्यचिनोन्मणिम् अलब्धमणिरागध्य कृष्ण आहाग्रजान्तिकं पृथाहतस्तधनुर्मणिस्तत्र न विद्यते तत आहबलो नूनं समणिः सतधन्वनां कस्मिंश्चित् पुरुषे न्यस्तम् अन्वेषपुरं व्रज अहं विदेहमिच्छामि द्रष्टुं प्रियतमं मम इत्युक्त्वा मिथिलां राजन् विवेश यदुनन्दनः तं दृष्ट्वा सखसोत्थाय मैथिलप्रीतमानसः अर्हयामास अर्हणीयं समर्हणैः उवास तस्यां कतिचिन् मिथिलायां समाविभुः मानितः प्रत्युक्तेन जनकेन महात्मना ततोऽस्ति काले धार्दराष्ट्रस्सु योधनः केशवोद्वारकामेत्य निधनं सतधन्वनः अप्राप्तिं च मणि प्रियया प्रियघृविभुः ततः स कारयामास क्रियाभन्तोर्हतस्य वै साकं सुहृद्भिर्भगवान् या यस्युसम्भरायिकाः अक्रूरकृतवर्मा च श्रुत्वा सददनोर्वधं व्युक्षतुर्भयवित्रस्थौ द्वारकाया प्रयोजकौ अक्रूरे प्रोषितेऽरिष्ठानि आयासन् द्वार वै द्वारकौकसां शारीरामानशास्तापा मुहोर्दैविकभौतिकाः इत्यङ्क उपदिशन्त्येक विस्मृत्य प्राकृताहृतं मुनिवासनिवासे किं घटेतारिष्टदर्शनं देववर्षति काशीश स्वपल्काय गताय स्वसुतां गान्तिनीं ततो वर्षत्स्म काशिषु तत्सु तत्तत्प्रभावो सावक्रुरो यत्र यत्र देवो विवर्षते तत्र नोपतापानमारिकाः इति वृद्धवच श्रुत्वा नैतावदिहकारणम् इति मत्वा समानाय प्राहाक्रूरं जनार्दनः पूजयित्वा अभिभाष्यैनम् कथयित्वा प्रिया कथाः विज्ञाता किल चित्तज्ञ स्मयमान उवाचः ननुधानपते न्यस्तस्त्वय्यास्ते सतधन्वना शमन्तको मणिशीमान् विदितः पूर्वमेव नः सत्राजितो न पद्यत्वात् गृह्णीयोर्दुहितुः सुताः चसेक्षितं शिक्षितं तथापि दुर्धरस्त्वन्यैस्त्वय्यास्तां सुभृते मणिः किन्तु न माम् अग्रजः मणिं प्रति दर्शयस्व बन्धूनां शान्तिमावहा अव्युच्छिन्नामहास्तेद्य वर्तन्ते रुक्मभेदयः येवं सामभिरालब्ध स्वपल्कतनयोमणिम् आदाय दतौ सूर्यसमप्रभं शमन्तकन्दशयित्वा ज्ञादिभ्योद्रज आत्मनः विमृज्जमणिना भूयस्तस्मै प्रत्यर्पयत् प्रभुः यस्वेतत् भगवत ईश्वरस्य विष्णोर्वीर्याट्यं वृजिनहरं सुमङ्गलं च आज्ञानं पठति शृणोति अनुस्मरे दुष्कीर्तिं दुरितमपोक्य याति शान्तिम् इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्ते शमन्तकोपाख्याने सप्तपञ्चाशद्धमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द